मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फिफ्टि विघ्नासुराश्रमगमनम् श्रीगणेशाय नमः मुद्गल उवाच पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह पत्न्या परमसत्यावै वै तपःसाराधितो विभुः दशवर्षसहस्रेषु गणेशो वरदो भवद स्तुतः सम्भूजितस्तेन नानास्तोत्रायि प्रजापदे ताभ्यां पुत्रो भवस्वामिन् वृतस्त्वन्नौ वरो महान् तथेदि गणराजस्तौ कथयित्वा ययौ पुरं ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययो सुरनाधेन जगाद वचनं हिदं नारद उवाच हिमवत्याम हिमप्रांदे राजा मदसमन्वितः अभिनन्दनयवासौ यत्नं करोति दुर्मदिः ब्राह्मणान् स समानीय प्रोवाच बलगर्विदः यत्नमिन्द्रेण नम्मे न मे कुरुध्वं यत्नसंयुताः नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः तस्य तद्वचनं श्रुत्वा तथेदिब्राह्मणा जगुः अद्य श्वो वा करिष्यन्ति यत्नं भयसमन्विताः ब्राह्मणानात्र सन्देहो यथेच्छसि तथा कुरु यवमुक्त्वा महायोगिनारदः प्रययौ तदः विकुण्ठे स महाविष्णुं तदस्वच्छन्दगो भवद इन्द्रक्रोधसमाविष्टः सस्मारकालरूपिणं भगवन्तम् महाकायमिन्द्रं सप्रययौ प्रभुः तम् प्रणम्य प्रतुष्टाव कथयामास दुःखदं वृत्तान्तं प्रार्थयामास यज्ञविध्वंसनायतं कालस्तथेदितं तुष्टकथयित्वा यय उदरां धारयामास मनसि कालः कलयतां प्रभुः कालाधीनं जगत्सर्वं सदा कालेन भुज्यदे कालं योगबलेनैव जयन्त्यत्र हि योगिनः तत्रादौ कर्मसंशुद्धा योगनिष्टा भवन्ति च अधः कर्मविनाशार्थं यदिष्येऽं विशेषतः कर्महीना नराः सर्वे मलिनाः सम्भवन्ति च न च्छन्ति योगमाध्यन्ते भविष्यन्ति मदात्मकाः जन्ममृत्युयुताः सर्वे मदधीना न संशयः इन्द्रेण प्रेरितस्तत्र चत्मनैव करोम्यहम् विचार्यकाल इति स आसुरं रूपमादधे विघ्नरूपेण तम्भूपं ययौ क्रोधसमन्वितः यज्ञं बभञ्च वेगेन ब्राह्मणां स्थाडयन्पुरा तदो नानास्थले दुष्टो ह्यगमद्विघ्नरूपदृक कर्मखण्डनभावेन चचारबलमोहितः सर्वत्र कर्मलोपाय विघ्नेना पीड्यमानवान् तदत्सोऽपि जनान् काले न मोहयन् योगिनो नानास्वरूपदृक प्रातःकालम् चकारासौ निषीथम् सायमादराद मध्याह्नम् कारयामास नानाभ्रमकरः सदा चकाररात्रिरूपं स दिवसं कर्मखण्टकः रात्रिम् दिवसरूपान् ताम् वक्तुम् नैव प्रशक्यते लोकान् भ्रमयुधान् सर्वान् कर्म हीनांश्चकारसः चंद्रच्छा कालस्तु सूर्य नक्षत्र का तथोदिभयुक्ता भ्रांता बभूवीरे कर्मीन प्रभावेण चोपोषणपरायण न समर्थ बभू उल चलिद प्रभु कालाधीना सुरासव तदो ततो वसिष्ठमुख्याश्च ब्रह्माणं शरणं ययुः तेन सार्धं च वैकुण्ठं जग्मु कालभयान्विताः विष्णुना शङ्करं जग्मु ब्राह्मणा भयसङ्कुलाः स्तुत्वा नानाविधै स्तोत्राय शिवेन संयुता सर्वे विघ्नेशं तुष्टुवुप्रभुं तपसा ध्यानयुक्तेन तोषयामासुरादराद गदे वर्षशदे काले परमात्मा गजाननः वरदस्थान्ययौ देवान् बोधयामासन् ततस्थै संस्तुतो देवप्रार्थितो विघ्नना शनि तधेदिप्रतिपाद्यैव पार्श्वपुत्रो बभूव सः दीपवत्सलया युक्तः पार्श्वपरमयो गविद पुरा ततपखोरं स तपो विघ्नेश्वरं स्मरन् प्रकृतेषु सवर्षेषु सहस्रे गणनायकः प्रसन्नस्तं ययौतेन पूजितः भवद सव्रे मे पुत्रः परमतारकः संसारे पुत्रवात्सल्यात् भजिष्यामि सहस्त्रिया स्त्रिया मूर्तौ देवस्वभावेन हृदये योगमार्गदः भजिष्यामि त्रिधाुण्ढे त्वां सर्वत्र विशेषतः नानाकर्मपरोहं वै तव देवगजानन पिता जातश्च ते न त्वं तारको मे भविष्यसि तथेदि विघ्नराजस्तमुवाचान्तर्दधे प्रभुः विघ्नासुरविनाशाय बभूवे देहधारकः दीपवत्सलिकायाः स जठरे सङ्गतो विभुः स्तनपानादिकं सर्वं स चकारादितोषितः पञ्चवर्षात्मको बालो बभूव मुनिवेश्मनि तदा देवर्षय सर्वे तं ययुर्भक्तिसंयुदा शम्भु आद्यान् ससुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् पार्श्वसम्भ्रमसंयोस्तान् पुपूज यथाविधि उपा च प्रेमसंयुक्तो धन्यं मे जन्मकर्म येन देवगणाः सर्वे मुनयो गृहमागताः आज्ञां कुरुत देवेश दासोऽहं भवतां द्विजाः करिष्यामि न सन्देहो भवत्स्मृतिबलेन वै देवर्षय ऊजुः तव भाग्यबलेनैव सुतस्वानन्दगो भवत गजानन स्वयं सर्वे प्रार्थयामोहिता यतं विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने तस्य नाशार्थमेवं त्वं कुरु महामदे श्रुत्वा तेषां वजक्रूरं मुनिः शोकयुधो भवत एतस्मिन्नन्तरे तत्र स गजानन आययौ तं दृष्ट्वा सह सोद्धाय नेमुः सर्वे सुरेश्वरः मुनयस्तुष्टुवुर्देवं प्रार्थया मासुरादराद तेषां हृदि स्थितम् ज्ञात्वा शस्त्रहस्तश्च दुर्भुजः मूषकोपरिसंस्तो यो ययौहन्तुं महासुरम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्धे खंडे गजानन जरिदे सुराश्रम चि वीघ्नासुराश्रमगमनमचतमोध्याय ओम